श्रीमद्भागवतमहापुराणं चतुर्थी स्कन्ध अथ पञ्चविंशोऽध्यायः मैत्री उवाच इति सन्देश भगवान् बार्हि सन्दैर्भिपूजितः पश्यतां राजपुत्राणां तद्रैवान्तर्दधे हरः रुद्रगीतं भगवतः स्तोत्रं सर्वे प्रतिदथ जपन्तस्ते तपस्ते पूर्वर्षाणाम् अयुतं जले प्राचीनवर्षिषं छत्त कर्मस्वासक्तमानसं नारदोऽध्यात्मतत्त्वज्ञकृपालो प्रत्यबोधयन् श्रेयस्त्वं कतमद्राजन् कर्मणात्मनेहसे दुःखाहानि सुखावाप्ति श्रेयस्तस्नेहचेस्यते राजोवाच राजानां महाभाग करमापविध्वसि ब्रूहि मे विमलं ज्ञानं येन मुच्चेय ये कर्मभि गृहे सुटिधर्मेसु पद्रदारधनार्षदि न परं विन्दते मूढो भ्राम्यन् संसारवर्त्मसु नारदुवाच भो भो प्रजापते राजन्पशन् पश्य त्वयाध्वरे संज्ञापिताञ्जीवसङ्घानिर्भलेन सहस्रश एते त्वां सम्प्रतीक्षन्ते स्मरन्तो वयस संतव सम्परेतमयकूटे छन्दत्युत्थितमन्यवः तत्र ते कथिष्ये मुम्मेतिहासं पुरातनं पुरञ्जनस्य चरितं निबोध गजतो आसीत् पुरञ्जनो नाम राजाराजन् ऋषस्रवाः तस्याविज्ञातनामासे सखा विज्ञातचेष्टितः सोल्वे समाळशरणं बभ्राम पृथिवीं प्रभु नानुरूपं यदा विन्दभूत् स विमां विमना इव न साधु मेनेता सर्वा भूतले यावती पुर कामान् कामयमानोऽसौ तस्य तस्योपपत्तये त एकदा हिंवतो दक्षिणेश्वरसाधुषु ददर्शनोभिर्द्वाभि पुरं लक्षितलक्षणां प्राकारोपं दनाट्टालपरिखैरक्षतोरणैः स्वर्णरोप्यायसै शृङ्गैः सङ्कुलां सर्वतो गृहैः नीलस्फटिकवैदुर्यमुग्धामृकतारुणैः क्लिप्तं हर्म्यस्थलीं दीप्तां त्रिया भोगवतीमिव सभा चत्वररथ्याभिरा आक्रीडा यतनापणैः चैत्यध्वं ध्वजपताकाभिर्युक्तां विद्रुमवेदिभिः पुर्यास्तु बाह्वोपमलें दिव्यद्रुमलताकुले न तद्विहङ्गाले कुलकोलाहलजलाशे त्रिमनिर्शरं दिव्योऽस्मन्मन् कुसुमाकरवायुना अली तुलत्प्रवालविडुपन् अलि अलिनीतृसम्पदे नानारण्यमृगव्राते अनाबाधे मुनिवृतये आहूतं मन्यते पांथो यत्र कोकिलकूजितैः यदीक्षया गतां तत्र तुदृशप्रमदोत्तमां वृद्धै एकैकं एकैक सतनायकै पञ्चशिरसार्हिणा गुप्तां प्रतिहारेण सर्वतः अन्वेषमाणाभृषभम् अप्रौढाकामरूपिणीं सुनासां सुदतिं बालां सुकपोलाम्बराननां शमविन्यसुकर्णाभ्यां बिभ्रतिं कुण्डलं कुण्डलश्रियम् प्रिसङ्गदेवीं शुश्रोणीं श्यामं कनकमेखलाम् पद्भ्यां चलतिम् चलतिं नुपुरैर्देवतामिव चलो व्यञ्जतकैसोरौ संवृद्धौ निरन्तरौ वस्त्रान्तेन निगूढं निगूहन्तीं वीडयागजगामिनीं तामाहललितं वीरसबीडस्मिशोभनां स्निग्धेनापाङ्गपुङ्खेन स्पृष्टप्रेमोदभ्रमध्रुम्भ्रुवाः का त्वं कञ्जपलासाखी कस्याशीह कुतशती इमामोपुरीं भीरो किञ्चिकीर्षसि संसमे का एते नुपथायेत एकदन् एकादद् महाभटाः दतावालनना शुभ्रो कोऽयं ते हि पुरस्सर त्वं हे भवान्यस्यथ वाग्रां वाग्रमापतिं विचिन्वति किं न्दङ्घ्रिकामान्तसमस्तकामं क पद्मकोशपतितकराग्राद् नाशाम्बरो वन्यतमावुं भुवे स्मृतं प्रेमिमां वीरवरेण साकम् अर्हस्यलङ्कृ कर्तु मदभ्र कर्मणालोकं परं श्रीरिवं यज्ञपुंशा यदेशमापाङ्गविखण्डितेन्द्रियं सविडभावं स्मितं दिभ्रमद्रभ्रुवा भगवान् प्रवादते त्वयोपशेष्टो भगवान्मनोभव प्रबाधतेथानुगृहालशोभने तदाननं शुभ्र सुतारलोचनं जालम्बिनीलालकं दिन्दसंमृतम् उन्नीय मेदर्शेवल्गुवाचकं जलभृषयां नाभिमुखं शुचिस्मिते नारदुवाच इत्थं पुरञ्जनं नारी याचमानम् अधीश्वरा अभ्यनन्दतु तं वीरं भजन्ति विर्मोहिताम्